नारदपुराणम् पूर्वार्थम् अध्यायम् ट्वेण्टिवन् सनक उवाच अन्यद्व्रतम् प्रवक्ष्यामि नारद नारदतत्वदः दुर्लभं सर्वलोकेषु विख्यातम् हरिपञ्चकम् नारीणां च नराणां च सर्वदुःखनिवारणम् धर्मकामार्थमोक्षाणां निधानं मुनिसत्तमा सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदं मार्गशीर्षे सिदे पक्षे दशम्यां नियतेन्द्रियः कुर्यास्नानादिकं कर्म दन्दधावनपूर्वकं कृत्वा देवार्चनं सम्यक् तथा पञ्चमहाध्वरान् एकादशी च भवेत्तस्मिन् दिने नियममास्थिताः ततः प्रातः समुद्धाय मुनीश्वरः स्नानं कृत्वा यथाचारं हरिं चैवार्चयेद्गृहे स्नापयेद्देवदेवेश्यं पञ्चामृतविधानतः अर्चयेत्परयाभक्रिया गन्धपुष्पादिभिक्रमाद् धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैश्च प्रदक्षिणैः सम्पूज्य देवदेवेश्यमिमं मन्त्रमुदीरयेद् नमस्ते ज्ञानरूपाय ज्ञानराय नमोऽस्तु नमस्ते सर्वरूपाय सर्वसिद्धिप्रदायिने एवं प्रणम्य देवेशं वासुदेवं जनार्दनं वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत, पञ्चरात्रं निराहारो ह्यद्यप्रभृति त्वदाज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव येवं समाप्य देवस्य उपवासं जितेन्द्रियः रात्रौ जागरणं कुर्यादेकादश्यामधो द्विज द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः पौर्णमास्यां च कर्तव्यमेवं विष्णु अर्चनं मुने एकादश्याम् पौर्णमास्याम् कर्तव्यम् जागरं तथा पञ्चामृतादिपूजादु सामान्यादिनपञ्चसु क्षीरेण स्नापयद्विष्णुं पौर्णमास्यां तु शक्रिदः तिलहोमश्च कर्तव्यस्तिलदानं तथैव च तदषष्ठे दिने प्राप्ते निर्वत्यं स्वाश्रमक्रियां सम्प्राह्य पञ्चगव्यं च पूजयेद्विधिवद्धरिं ब्राह्मणान् भोजयेत्पश्चाद्विभवे ततः स्वबन्धुभिः सार्धं स्वयं भुञ्जीतवाग्यदः एवं पौषादिमासेषु कार्तिकान्तेषु नारद शुक्लपक्षे व्रतं कुर्यात् विधिना नरः एवं संवत्सरं कार्यं व्रतं पापप्रणाशनं पुनः प्राप्ते मार्गशीर्षे कुर्यादुद्यापनम् व्रती एकादश्याम् निराहारो भवेत् पूर्वमिव द्विज द्वादश्याम् पञ्चगव्यम् च प्राशयेत्सुसमाहितः गन्धपुष्पादिभिः सम्यग्देवदेवम् जनार्दनम् अभ्यर्च्योपायनम् दद्याद् ब्राह्मणायजितेन्द्रियः यसम्मधुसम्मिश्रं कृतयुक्तम् फलान्वितं सुगन्धजलसंयुक्तम् पूर्णकुम्भं सदक्षिणम् वस्त्रेणाच्छादितं कुम्भं पञ्चरत्नसमन्वितं दध्या दध्यात्मविदुषे ब्राह्मणाय मुनीश्वर सर्वात्मन् सर्वभूतेश सर्वव्यापिंसनातन परमान्नप्रधानेन सुप्रीतो भवमाधव अनेन पायसं दत्त्वा ब्राह्मणान् भोजयेत्तदः सकृतो बन्धुभिः सार्धं स्वयं भुञ्जीदवाग्यदः व्रतमेतत्तु यः कुर्याद्धरिपञ्चकसंतं नतस्य पुनरावृत्तेर्ब्रह्मलोकात्कदाचनान् व्रतमेतत् प्रकर्तव्यमिच्छद्भिर्मोक्षमुत्तमम् समस्तपापकान्तारधावानलसमम् द्विज गवाङ्कोटिसहस्राणि दत्त्वा यद्फलमाप्नुयात् तद्भलं लभ्यते पुंभिरेदस्मादुपवासदः यस्त्वेदच्छृणुयाद्भक्र्या नारायणपरायणः समुच्यते महाघोरैस्तपकानां च कोटिभिः इति श्रीबृहन्नारदपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशी मासद्य मासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतम् नामैकविंशोऽध्यायः ओम्